सर्वेभ्यः नमो नमः महाभारतस्य वनपर्वणि त्रयोविंशत्यधिकद्विशततमोऽध्यायः कार्तिकेयस्य उत्पत्तिः वैशम्पायन उवाच श्रुत्वे मां धर्मसंयुक्तां धर्मराजः कथां शुभां पुनः पप्रच्छतमऋषिं मार्कण्डेयं तपस्विनं युधिष्ठिर उवाच कुमारस्तु तथा जातो यथा च सुतो भवतु यथा रुद्राच्च सम्भूतः गङ्गायां कृत्तिकासु च एतदिच्छाम्यहं श्रोतुं कौतूहलमतीव मे मार्कण्डेय उवाच अग्नीनां विविधावंशाः कीर्तितास्ते मया नघ शृणुजन्म तु कौरव्या कार्तिके यस्य धीमतः अद्भुतस्याद्भुतं पुत्रं प्रवक्ष्यामैतैतौजसं जातं ब्रह्मर्षिभार्याभिः ब्रह्मण्यं कीर्तिवर्धनं देवासुराः पुरायत्ताह विनिघ्नन्तः परस्परं तत्राजयं सदा देवान् दानवाघोररूपिणः वध्यमानं बलं दृष्ट्वा बहुशस्तैः पुरन्दरः ससैन्यनायकार्थाय चिन्तामापभृशं तदा देवसेनां दानवैर्हि भग्नां दृष्ट्वा महाबलः पालयेद्वीर्यमाश्रित्य सज्ञेयः पुरुषो मया शशैलं मानसं गत्वा ध्यायन्नर्थमिदं भृशं शुश्रावार्तस्वरं घोरं अधमुक्तं स्त्रिया तदा अभिधावतु मां कश्चित् पुरुषस्त्रातु चैवः पतिञ्च मे प्रदिशतु स्वयं वा पतिरस्तु मे पुरन्दरस्तुतामाह मा भैर्नास्ति भयं तवा एवमुक्त्वा ततोपश्यत् केशिनं स्थितमग्रतः किरीटिनं गदा धातुमन्तमिवाचलं हस्ते गृहीत्वा कन्यां ताम् अथैनं वासवोऽब्रवीत् अनार्यकर्मन् कस्मात् त्वम् इमां कन्यां जिहीर्षसि वज्रिणं मां विजानीहि विर विरमस्याः विरमास्याः प्रबाधनात् केश्युवाच विसृजस्वतमेवैनां सक्रेशा प्रार्थिता मया क्षमन्ते जीवितो गन्तुं स्वपुरं पाकशासन एवमुक्त्वा गदां केशि चिक्षेपेन्द्रवधाय वै तामपन् चिच्छेद मध्ये वज्रेण वासवः अधास्य शैलशिखरं केशीक्रुद्धोऽव्यवासृजत् तदा पतन्तं सम्प्रेक्ष्य शैलश्रृङ्गं सतक्रतुः बिभेदराजन्वज्रेण भुवि तान्निपपातः पततातु तदा केशी तेन शृङ्गेण ताडितः त्वा कन्यां महाभागां प्राद्रवत् भृशपीडितः अपयाते सुरे तस्मिन् तां कन्यां वासवो ब्रवीत् कासि कस्यासि किञ्चेह पुरुषे त्वं सुभानने इति श्रीमहाभारते वनपर्वणि मार्कण्डेयसमस्यापर्वणि केसी आंग आंगिशोप्याकंदोत्पत केवेश्धिकशतमोध्याय